guitar solo पिजयत्येष स्वादुः पूजा महोत्सवः यतो मृतरस्वा स्वादम अश्रुण्यपि तदत्यलम् पाराः से धः सर्वे ये त्वत्पूजा पुरः शराः भक्ताना त्वर्मयाः सर्वे स्वयं सिद्ध य एवते सर्वदा सर्वभाषु युगपत् सर्वरूपमर्चयनृत्य वेश्रा तेधि देवता ध्यानाया सतिरस्कार पूजा भक्ताना समता समभदारस पीयु रसे रसेनषां सदार्चन ब्रह्मादीनामपि शास्ते ते च सौभाग्यभागिनः येषां स्वप्नेपि मोहे पूजनोत्सव जपता जो सततं त्वत्पदाभ्यर्चा सुधा पालमहो सवः त्वत्प्रसादैकसंप्रापि हेतुर्मे नाथ शोभ न कोहाध का समृद्धे न वा परा नमस्तेभ्यो विभो ये शक्तिपि भो ध्या त्वा मन्त्राध्येया त्वदात्मता स्वात्मन्येव परिभयक्ता मान्ति हर्षे रेण न क्वचित् स्वाद भक्ति स्वादुभक्तिरसा स्वादस्तब्भिभूतमनश्च्युता शम्भो त्वमेव ललितः पूजानां किल भाजनम् परिपू भक्तिमन्त्रिस्थिराणि च भवत्पूजा विभो नाथ साधनानि भवन्तुम्रे सदा मू हां मैं Oh, my God.